अथ पञ्चाङ्गमुखन्यासः नमः शिवाय तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् संवर्ताग्नितटिप्रतीप्तकनकप्रस्पर्धितेजोरुणम् ताम्राधरं सुन्दरम् अर्धेन्दुद्युतिलोलपिङ्गल जटाभार प्रबद्धोदकम् वन्दे सिद्धसुरासुरेन्द्रनमितम् नमो भगवते रुद्राय पूर्वाङ्गमुखाय नमः अघोरेभ्यो खघोरेभ्यो ो नमस्ते अस्त रुद्रे का भ्रमरांजन्युति व्याृतपिंगे क्षण कर्णोद्भासी भोगिमस्तकमोन दाकुरु सर्प प्रोदकलव्यार्णता शेखरम वन्दे दक्षिणमीश्वरस्य वदनम् चाथर्वनादोतयम् ॐ नमो भगवते रुद्राय दक्षिणाङ्गमुखाय नमः सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भव स्वमाम् भवोद्भवाय नमः प्रालेयामलमिन्दुकुन्दधवलं गोक्षीरफेण प्रभम् भस्माभ्यङ्गमणङ्गदेहदहनज्वालावलीलोचनम् विष्णुब्रह्म मरुद्गणार्चितपदम् चर्ग्वेदनादोदयम् वन्देहम् सकलम् कलङ्गरहितम् स्थाणोर्मुखम् पश्चिमम् ओ नमो भगवते रुद्राय पश्चिमाङ्गमुखाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमःकालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः गौरम् कुङ्कुमपङ्किलम् सुतिलकम् यापाण्डुगण्डस्थलम् भ्रूविक्षेपकटाक्षवीक्षणलसत् संसक्तकर्णोत्पलम् स्निग्धं बिम्बफलादरम् प्रहसितम् नीलालकालङ्कृतम् वन्दे याजुषवेदघोषजनकम् वक्त्रम् हरस्योत्तरम् ॐ नमो भगवते रुद्राय उत्तराङ्गमुखाय नमः ईशाः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिः ब्रह्मा शिवो मे अस्तु सदा शिवो व्यक्ताव्यक्तनिरूपितम् च परमम् षष्टिम् सतत्वाधिकम् तस्मादुत्तरतत्त्वमक्षरमिति ध्येयम् सदा योगिभिः ओङ्कारादिसमस्तमन्त्रजनकम् सूक्ष्मादिसूक्ष्मम् परम् वन्दे पञ्चममीश्वरस्य वदनम् खव्यापितेजोमयम् ॐ नमो भगवते रुद्राय ऊर्ध्वाङ्गमुखाय नमः